अथ सप्तदशाधिकद्विशततमोऽध्यायः वैशम्पाय न उवाच सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च सर्वाण्येवानुपूर्व्येण जगामामित विक्रमः समुद्रे च तानि सर्वाणि दत्वा स प्रभासदेशं सदेशम् सम्प्राप्तम् बीभत्सुमपराजितम् सुपुण्यम् रमणीयम् च शुश्रावमधुसूदनः ततोऽभ्यगच्छत् कौन्तेयम् सखायम् तत्र माधवः ददृशा ते तदान्योन्यम् प्रभा से समाश्लिष्य पृष्ट्वा वने आस्ताम् प्रिय सखायौतौ नरनारायणा ततोऽर्जुनम् वासुदेवस्ताञ्चर्याम् पर्यपृच्छत किमर्थम् पाण्डवैतानि तीर्थान्यनुचरस्युता ततोऽर्जुनो यथा वृत्तम् सर्वमाख्यातवांस्तदा श्रुत्वो वाच वाष्णेय एवमेतदिति प्रभु तौ विहृत्य यथा कामम् प्रभासे कृष्ण पाण्डवौ रैवतकम् वासायैवाभिजग्मतुः पूर्वमेव तु कृष्णस्य वचनात्तम् महीधरम् पुरुषामण्डयाञ्चक्रुरुपजहृश्च प्रतिगृह्यार्जुनः सर्वम् उपभुज्य च पाण्डवः सहैव वासुदेवेन दृष्टवान् नटनर्तकान् अभ्यनुज्ञायतान् सर्वान् अर्चयित्वा च पाण्डवः सत्कृतम् शयनम् दिव्यम् अभ्यगच्छन् महामतिः ततस्तत्र महाबाहुः शयानः शयने शुभे तीर्थानाम् बल्वलानाम् च पर्वतानाम् च दर्शनम् आपगानाम् वनाम् च कथयामास सात्वते एवम् स सा कथयन्नेव निद्रया जनमे जया कौन्तेयोऽपि हृतस्तस्मिन् शयने स्वर्गसन्निभे मधुरेणैव गीतेन वीणाशब्देन चैव प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा स कृत्वावश्यकार्याणि वाष्णेनाभिनन्दितः रथेन काञ्चनाङ्गेनवान् अलङ्कृता द्वारका तु बभुवजन मे जय कुन्दीपुत्रस्य पूजार्थम् अपि